त्रिंशोऽध्यायः सौतिरुवाच स्पृष्टमात्रा तु पद्भ्याम् सा गरुडेन बलीयसा अभज्यततरोः शाखा भग्नाम् चैनामधारयत् ताम् भङ्क्त्वा स महाशाखाम् स्मयमानो विलोकयन् अथात्र लम्बतोपश्यद्वालखिल्यानधोमुखान् ऋषयो ह्यत्र लम्बन्ते न हन्यामिति तान् ऋषीन् तपोरतान् लम्बमानान् ब्रह्मर्षीनभिवीक्ष्यसः हन्यादेतान् सम्पतन्ती शाखेत्यथ विचिन्त्यसः न खैर्दृढतरम् वीरः सङ्गृह्य गजकच्छपौ स तद्विनाशसन्त्रासादभिपत्यखगाधिपः शाखामास्येन जग्राहतेषामेवान्ववेक्षया अतिदैवम् तु तत्तस्य कर्म दृष्ट्वा पक्षैः शैलान् प्रकम्पयन् एवम् सोऽभ्यपतद्देशान् बहून् स गजकच्छपः दयार्थम् वालखिल्यानाम् न च स्थानमविन्दत स गत्वा पर्वतश्रेष्ठम् गन्धमादनमञ्जसा ददर्शकश्यपम् तत्र पितरम् तपसि स्थितम् ददर्श तम् तेजो वीर्य तेजोवीर्यबलोपेतम् मनोमारुतरंहसम् शैलश्रृङ्गप्रतीकाशम् ब्रह्मदण्डमिवोद्यतम् अचिन्त्यमनभिध्येयम् सर्वभूतभयङ्करम् महावीर्यधरं रौद्रं साक्षादग्निमिोद्यतम् अप्रधृष्यमजेयम् च देवदानवराक्षसैः भेत्तारम् गिरिश्रृङ्गाणाम् समुद्रजलशोषणम् लोकसंलोडनम् घोरम् कृतान्तसमदर्शनम् तमागतमभिप्रेक्ष्य भगवान् कश्यपस्तदा विदित्वा चास्य सङ्कल्पमिदं वचनमब्रवीत् कश्यप उवाच पुत्रमासाहसम् कार्षीर्मा सद्यो लप्स्य सेव्यथाम् मा त्वाम् दहेयुः वालखिल्यामीचिपतिवाच तत प्रसादयास कश्यपुत्रकारलखिल्या महांस्तपातकम कश्यप उच प्रजाताथमाररंभ गरुस्तोधना चिकीर्षति महत्कर्म तदनुाथ सौतिवाच एव मुक्ता भगवता मुनयस्ते समभ्ययुः मुक्त्वा शाखाम् गिरिम् पुण्यम् हिमवन्तम् तपोर्धिनः ततस्तेष्वपया तेषु पितरम् विनता सुतः शाखाव्याक्षिप्तवदनः पर्यपृच्छत कश्यपम् भगवन् क्व विमुञ्चामि तरोः शाखामि मामहम् वर्जितम् मानुषैर्देशमाख्यातु भगवान् मम ततो निः पुरुषम् शैलम् हिमसंरुद्धकन्दरम् अगम्यम् मनसाप्यन्यैस्तस्याचख्यौ सकश्यपः तम् पर्वतम् महाकुक्षिमुद्दिश्य स महाखगः जवेनाभ्यपतत्तार्क्ष्यः सशाखा गजकच्छपः न ताम् वध्रीपरिणहेच्छतचर्मा महातनुम् शाखिनो महतीम् शाखाम् याम् प्रगृह्य ययौखग योजनांतरमागत, शतसाहस्रम् योजनान्तरमागतः कालेन नातिमहता गरुडः पतगेश्वर सतम् क्षणेनैव पर्वतम् वचनात् पितुः अमुञ्चन् महतीम् शाखाम् सस्वनम् तत्र खेचर पक्ष्यानिलहतश्चास्य प्राकम् पतसशैलरा मुमोच पुष्पवर्षम् च समागलितपादपः शृङ्गाणि च व्यशीर्यन्त गिरेस्तस्य समन्ततः मणिकाञ्चनचित्राणि शोभयन्ति महागिरिम् शाखिनो बहवश्चापि शाखयाभिहतास्तया काञ्चनैः कुसुमैर्भान्ति विद्युत्वन्त इवाम्बुदा ते पर्वतधातुभिः व्यराजञ्चाखिनस्तत्र सूर्यांशुप्रतिरञ्जिता ततस्तस्य गिरेशृङ्गमास्थाय सखगोत्तमः भक्षयामासगरुडस्तावुभौ गजकच्छपौ तावुभौ भक्षयित्वा तु सतार्क्षः कूर्म कुञ्जरौ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 स्वम् स्वम् प्रहरणम् तेषाम् परस्परमुपाद्रवत् अभूतपूर्वम् सङ्ग्रामे तदा देवासुरेऽपि च वपुर्वाताः स निर्घाताः पेतुरुल्काः सहस्रशः निरभ्रमेव चाकाशम् प्रजगर्जमहास्वनम् देवानामपि यो देवः सोऽप्यवर्षत शोणितम् मम्लुर्माल्यानि देवानाम् नेषु स्तेजांसि चैव हि उत्पातमेघा रौद्राश्च ववृषुः शोणितम् बहु रजांसि मुकुटान्येषामुत्थितानि व्यधर्शयन् ततस्त्राससमुद्विग्नः किमर्थम् भगवन्घोरा उत्पाताः सहसोत्थिता न च शत्रुम् प्रपश्यामि युधियो नः प्रदर्शयेत् बृहस्पतिरुवाच तवापराधाद्देवेन्द्रप्रमादाच्च शतक्रतो तपसा वालखिल्यानाम् महर्षीणाम् महात्मनाम् कश्यपस्य मुनेः पुत्रो विनतायाश्च खेचरः हर्तुम् सोममभिप्राप्तो बलवान् कामरूपधृक् समर्थो बलिनाम् श्रेष्ठो हर्तुम् सोमम् विहङ्गमः सर्वम् सम्भावयाम् यस्मिन्नसाध्यमपि साधयेत् सौतिरुवाच श्रुत्वैतद्वचनम् शक्रः प्रोवाचामृतरक्षिणः महावीर्यबलः पक्षी हर्तुम् सोममिहोद्यतः युष्मान् सम्बोधयाम्येष यथा न स हरेद्बलात् अतुलम् हि बलम् तस्य बृहस्पतिरुवाचः तच्छ्रुत्वा विबुधा वाक्यम् विस्मिता यत्नमास्थिताः परिवार्यामृतम् तस्थुर्वज्रीचेन्द्रः धारयन्तो विचित्राणि काञ्चनानि कवचानि महार्हाणि वैदूर्यविकृतानि च चर्माण्यात्र शुभानुमति दृढ़ा च विवधा च शस्ट घोरूपाण्यनेकश शतक्षग्रधारा सुद्यम्य स विस्फुंगज्वाला सधूमा चर्वश चक्रा परघाश्चूला पर शस्ती करवालांला स्वदेहरूपाण्यादाय गदाश्चोग्रप्रदर्शना तैः शस्त्रैर्भानुमद्भिस्ते दिव्याभरणभूषिताः अनुपमबलवीर्यतेजसो सुरगणास्तस्थुर्विगतकल्मषाः मृतस्य तेजसोद्धृतमनसः परिरक्षणेऽमृतस्य असुरपुरविदारणाः समरवर सुरा स्थितास्ते पिघ सहस्रशत सकुल विगलितव चाबरा तपन बभासे। इति श्री महाभारते आदिपर्वि आस्तीकपर्व सौपर्णे त्रिशोध्याय